ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स विश्वतो वृत्वा अप्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उत मृतत्वस्येशानः यदन्तेना तिरोहति महिमा अतोऽद्यायातिश्च पूरुषः पादोऽस्य विश्वभूतानि त्रिपादस्यावृतम् दिवे त्रिपादोर्ध्व उदेत्पुरुषः पादो उस्येका भवात्पुनः ततो विश्वम् व्यक्रामत। सा शनानशने अभि तस्माद्विराजजायत विराज अधिपूरुषः स जातो अत्यरिच्यत पश्चात् भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीताज्यम् ग्रीष्म यद्भः शरद्धविः सप्तास्यासन्परिधयः त्रिः सप्त समिधः कृताः देवा यद्यज्ञन्तन्वागाः अबध्वन् पुरुषम् पशुम् तञ यज्ञम् वर्षि प्रौक्षन्त् पुरुषम् जातपघ्रतः ते च देवा अयजन्ता साध्या ऋषयश्चये तस्माद्यज्ञात् पशुकस्ताकृस्तक्रे वा जव्यात् आहण्यान् वाम्यास्तजे तस्माद्यज्ञात् सर्वहुतः कृतः सा पाणिजज्ञिरे छन्दागुंसिजज्ञे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्ता ये केतो भयादतः गापोहजज्ञे तस्मात् तस्माज्जाता अजापयः यत्पुरुषम् व्यदधुः कतिथा व्यकल्पयन् मुखम् कृपस्य कौ बाहू का भूरूपाता उच्येते ब्राह्मणो अस्य मुखमासीत् बहुरागन्यः कृतः पूर्वतदस्य यद्वैष्यः पद्भ्याम् शूद्रो अजायत चन्द्रमापनसो जातः चक्षोः सूर्यो अजायत मुखादिन्दश्चाग्निश्च प्राणाद्वायुगजायत नाभ्य आसीदन्तरिक्षम् शीर्ष्टोद्यौ समवर्तत पद्भ्याम्भो मिर्दिश्रोत्रात् तथा लोकाकम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवन्नन्तमसस्तु पारे सर्वाणि रूपाणि विचित्यधेदः नामानि कृत्वाभिपदनजतास्ते धाता पुरस्ताद्यमुदा जहार शक्रस्त विद्वान् प्रतिशश्चतस्रः तमेवम् विद्वानवृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते नाकम् महिमानः सन्ते यत्र पूर्वे साध्या सन्ति देवाः अभ्यः सम्भूतः पृथिव्येन सा विश्वकर्मणः समवर्ततादि तस्य त्वश्च विदधद्रूपमेति तत्पुरुषस्य विश्वमाजागमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यपर्णन्तमसः परस्तात् तमेवम् विद्वाकमृत इह भवति नान्यः पन्था गर्भे अन्तः अजायमानो बहुधा विजायते तस्य देवाः परिजानन्ति ज्योनिम् मरे तेनाम् पदमिच्छन्ति यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुता जब्राह्मजे ऋतम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् रामम्भो विद्यात् तस्य देवा असन्द्वशे श्रेश्च ते लक्ष्मीश्च पत्न्यौ पार्श्वे नक्षत्राणि रूपम् अश्विकौ व्यात्तम् इष्टम्बनिषाण अमुम्बनिषाण सर्वम् वनिषाण ओम् गच्छञ्जो राणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये देवे स्वस्तिरस्पुनः स्वस्तिर्मानुषेभ्यः ऊर्ध्वन्ति गातुभे सजम् सन्तो अस्त्वद्युपते सन्ततुष्पते ओम् शान्तिः शान्तिः शान्तिः